नारदपुराणं पूर्वार्धम् अध्यायं 78. ऐट् सनत्कुमार उवाच कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर मोहविध्वंसनं जैत्रं मारुधे कवचं शृणु यस्य सन्धारणात्सद्य सर्वे नश्यन्त्युपद्रवाः भूतप्रेदारिजं दुःखं नाशमेदिनसंशयः एकदाहं गतो रामं रमयदां वरं संस्तं जायन्तं mm. स्वात्मनः पदम् तत्र रामं रमानाथं पूजितं त्रिदेशेश्वरैः नमस्कृत्य तदाधिष्ठमासनं स्थितवान् पुरः तत्र सर्वं मया वृत्तं रावणस्य वधान्तकं पृष्ठं प्रोवच राजेन्द्रश्रीरामस्वयमादराद तदकथान् दे भगवान् मारुधे कवचं ददौ मह्यं तत् ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचिदभविष्य देदन्निर्दिष्टं बालभावेन नारद श्रीरामेणां ना जनासुनासुनोर्भुक्तिमुक्तिप्रदायकं हनुमान् पूर्वतपादुदक्षिणे पवनात्मजः पादु प्रतीच्या मक्षघ्नः सौम्ये ऊर्ध्वपादुकपिश्रेष्ठकेसरिप्रियनन्दनः अधस्ताद्विष्णुभक्तस्तु पादु मध्ये च पावनिः लङ्काविदाहकः पादु सर्वपद्भ्यो निरन्तरं सुग्रीवसचिवः पादुमस्तकं वायुनन्दनः बालं पादु महावीरो भ्रुवोर्मध्ये निरन्तरम् नेत्रे चायापहारी च पादुनः प्लवगेश्वरः कपोलौ कर्णमूले च पादु श्रीरामकिङ्करः नास्ताग्रमञ्चनासूनुः पादु वक्त्रं हरीश्वरः पादु कण्ठेदु दैत्यारिस्कन्धौ पादु सुरारिजिद भुजौ पादु महाते जाकरौ चरणायुधः नखान्नाखायुधपादु कुक्षौ पादु कबीश्वरः वक्षो मुद्रापहारी च पादु पार्श्वे भुजायुधः लङ्कानि भञ्जनः पादु पृष्ठदेशेर्निरन्तरं नाभिं श्रीरामभक्तस्तु कडिं पात्तु अनिलात्मजः गुह्यं पातु महा अधिधिप्रियः स्कंधी अति प्रिय ऊर चुनी पादुकाजन जंखे पादु, पादु महाबलः अचलो अचलोदारक पादु पाद भास्करसिभ अंगानी पाद सवाढ़्यपादु पादुस्त मोखाङ्गानि महाशूरपादुरोमाणि चात्मवान् दिवारात्रौ त्रिलोकेषु सदा गदिलुतो वधु स्थितं व्रजन्तमासीनं पिबन्तं चक्षतं कविः लोकोत्तरगुणश्रीमान् पादुत्र्याम्बकसम्भवः प्रमत्तमप्रमत्तं वा शयानं गहनेऽम्बुनि स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वदे सागरे ध्रुमे संग्रामे सङ्करे कोरे वीराङ्गूपधरो वधू दाकिनीशाकिनी मारी काल कालरात्रिमरीचिकाः शयानं मां विभुः पादु पिशाचोरकराक्षसीः दिव्यदेहधरो धीमान् सर्वसत्त्वभयङ्करः साधकेन्द्रावनः शश्वत्पादु सर्वद एव यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः स सर्वरूप सर्वज्ञसृष्टिस्थितिकरो वद स्वयं ब्रह्म स्वयं विष्णुसाक्षाद्देवो महेश्वरः सूर्यमण्डल श्रीदः पादुकालत्रयेपि मां यस्य शब्दमुपाकर्म्य दैत्यदानवराक्षसाः देवां मनुष्या स्थिर्यं च स्थावराजङ्गमास्तथा सभयाभयनिर्मुक्ता भवन्ति स्वकृतानुगाह यस्या नेककथा पुण्या श्रूयन्ते प्रतिकल्पके सोऽवतः साधकश्रेष्ठं सदा रामपरायणः वै धात्र धातृप्रभृदि विद्विव्याक्तं यथा कीशरूपेणानं जनेन तद् यो विभुत्सोह मे शोकं स्वीय स्वयमनुर्मृहद प्रणवस्त्री वृध्वरः तस्मै स्वस्मै च सर्वस्मै नदोऽस्म्यात्मसमाधिना अनेकानन्दब्रह्माण्डधृदे ब्रह्मस्वरूपिणे समीरणात्मने तस्मै नदोऽस्म्यात्मस्वरूपिणे नमो हनुमदे तस्मै नमो मारुदसू नवे नमः श्रीरामभक्ताय श्यामाय महदेम नमः नमो वानरवीराय सुग्रीवसख्यकारिणे शङ्काविदहनायाधमहासागरतारिणे सीताशोकविनाशाय राममुद्राधराय च रावणान्दनिदानाय नमः सर्वोत्तरात्मने मेघनादमघ्वंसकारणाय नमो नमः अशोकवनविध्वंसकारिणे जयदायिने वायुपुत्राय वीराय आकाशोदरगामिने वनपालशिरश्चेत्रे लङ्काप्रासादभञ्जिने ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे सौमित्रिजयधात्रे जरामदूदाय ते नमः अक्षस्यपथकर्त्रे च ब्रह्मशस्त्रनिवारिणे लक्ष्मणाङ्गमः शक्तिजादक्षदविनाशिने रक्षोघ्नाय रिपुघ्नाय भूदघ्नाय नमो नमः वृक्षवानर वीरौखप्रासादाय नमो नमः परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः महीरिपुभयघ्नाय भक्तत्राणयिककारिण का परप्रेरितमन्त्राणां मन्त्राणां स्तम्भकारिणे पयःपाषाणतरणकारणाय नमो नमः बालार्कमण्डलग्रासकारिणे दुःखहारिणे नखायुधाय भीमाय दन्धा युधराय च विहङ्गमाय शवाय वज्रदेहाय ते नमः प्रदिग्रामस्थिदायाधूतप्रदवधार्दिने करस्तशैलशस्त्राय रामशस्त्राय ते नमः कौपीनवासे तुभ्यं रामभक्तिरथाय च दक्षिणाशा भास्कराय सदां चन्द्रोदयात्मनि कृत्याक्षतव्यधाघ्नाय सर्वक्लेशहराय च स्वाम्याज्ञा पार्थसङ्ग्रामसख्यसञ्जयकारिणि भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे किल्पकाराय खोरशब्दकराय च <laughs> सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे सदा वन हलाहारसंधृप्ताय विशेषदः महार्णवशिलाबध्वसेदुबन्धाय महा। दे नमः इत्येतत्कथितं विप्रमारुधे कवजं शिवं यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नदः अष्टगन्धैर्विलिख्यातकवचं धारयेतु यः कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे किं पुनर्बहुनोक्तेन साधितं लक्ष्मादराद प्रसप्तमेदः कवचमःसाध्यं चाभिसाधयेद् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नाम् अष्टसप्ततितमोऽध्यायः ओम्